ब्रह्मा सरकामय समात्मना मध्येपि आत्मन्नात्मन्यत्यामन्त्रयता तत्त्वेन समगम्भूतः प्रत्यसृमारे तदशभोता भवते रसभोता भवीनामैषः संवादेतम् दशभोक्षकम् कन्तम् रसभोत्यागच्छते पराक्षेण परोवक्षप्रियाय बहिदेवाः आत्मन्नात्मन्यत्यानन्त्रेण अस्मे सप्तमगम्भोगप्रत्यषाद सप्तहोत्र भवने सप्तभोत्र भवेनामेकः अम्बालेख सप्तहोतम् सन्तम् सप्तहोदयेत्याप्रियागिरिदेवाः आत्मन्नात्मन्यत्यानन्त्रेण सप् सप्तकुम्भोगप्रत्यषुणाद सषद्धोच भवने षड्भोतो हरेणामेशः संवादेकम् षड्भोचकम् सन्तम् षड्भवते रत्यागक्षते परोवक्षेण परोवक्षप्रिया यधिदेवाः आत्मन्नात्मन्यत्यामन्त्रयता सत्रै पञ्चमसम्भोतप्रत्यसमाज स पञ्चहोचरफल पञ्चभोचरफलेनावेषः संवादेकम् पञ्चभोचकम् सन्तम् पञ्चभवतेरत्यागक्षते परोवक्षेण परोक्षप्रियायिदेवाः आत्याकम् भवतप्रत्यक्षणाव चतुर्भो भवते चतुर्भोता भवीनामेषः एतम् चतुर्भोतकम् सन्तम् चतुर्भोते परोक्षेण परोक्षप्रियायिदेवाः समग्रये संवेदेन भवतप्रत्यश्रौ ीणायाख्याता सस्मान्मुरेनाविष्णोता इत्यागच्छते तस्मात्रोषपुत्राणामः हेजत्सावृज्जनमः हेजत्साव ब्रह्मणाभवने हेलं वेद ओस्रौमो नाम हिमङ्ग्वान् विश्वाग्नेभिोजतानाभनाभोजनानि अर्घ्यत्संहतेभाय समभ्युम् समाजसन्तो सञ्जामागृष्टा महागुण्तवजनः तादृत्वंजरे तत्त्वजनाभया अर्घ्ययोनायश्च नित्यः विद्वश्चैव प्रख्यागतः महतत्योश्चैकिञ्चन परमदाभिहोरेये एवो लिच्छ्यामि याः प्रतापचेतनः अवकारेन्द्रश्वं अमित्राने अपापाद् विगोदयन्तस्मात् अपोदयेत् अपदौराधराणां भोरावः तथा तवधर्ममन्वदेनां समिन्द्रं माजनां मुदे महयोत्काजं हन्तवे तवदा रघुपुत्रे इन्द्ररक्षणस्य गृहे च उपदम् हार्दियं नमोस्तु यज्ञष्पन्नः एवम् मत्साडने दुर्गः जागरेण अस्माकम् भवत्यपिता ऊषाकान्वेषाक्षत्रः ऊषावाचपुंस नूतनः ऊषे महा अस्माकम् अभयदने अपरेक्षन्धानन्धाने अग्नेरक्षा सुप्रसोत्यः अग्नेरक्षानालम्भदः हृदयफले वरेफलः हरिच्यजलोरः अग्ने हे जन्मध्ये वातः अतो न हितः अयासनसंयमो अयानो अज्ञाभुषः नमः कामाभोषश्च भव्यश्च अमरागे गौरराजते श्रीलंकेव प्रभे ततोऽस्तु देवेव हि आलसरगे रोह सदा हि मनोजे रत्तसमयया राधे सतोणि समाजेत नन्य कृपायेश्या भवयो मनेशा प्रयामन्ण्यां सरसमाविदन्तः अधिमालागोकर्सावरत्तः इज्ञेन्द्रवाय जातमुतेजाः वोत्त्रेण चदरव हृयोगाः न्यदेवासुदेवः स्वाभिक्षिः आचार्यरायव गोपालिनो ब्रह्म्याङ्कनो मनसा स्वभाषा ब्रह्मणा भार्याङ्कणो मनसा अन्तर्चरचलाय रामः राजश्चलाहुये कंसः कथानं नेति यावदिशः एतश्चन गुणदैरे वच्यं इन्द्रियस्य आदोजस्तवश्मं च आदकवदयेदौ समये सन्मेणङ्कद्रुम भवेत् तौ मेघौ गामकेन सह अपामानि तव उपोहोताहुः अपरेषाम् व्यास्यं अवर्य्यावे बहु अपरेषाम् व्यास्यं अज्ञया दैवस्य ब्रह्मणा सर्वम् अभिषङ्कनम् रामश्चाय सज्जन्तमस्वागम्भूयाय महास्मानमण्डलादयः हन्त्यतोलय धातव्यच्चाभिलाषिनः परत्कारेन कृत्वाहम् श्वमहष्कन्यवासायम् सातस्यानुभे हद्यादिन ध्याम् इन्द्रस्य गृहं ताः गुप्ता स्मः खलेन सौतरेण भव भो मानुवजानवेदौ शिवोभवनमद्यनः हरेन्द्रम् बालस्वप्रयावम् जग्मशृङ्गोषितानः तत्रैवम् ततः आदन्तमद्यन्तयानः प्रयाणः भयमारुहेम तथा देवे स्तसमाजम् वयेम पुरुत्समम् मुग्नः मध्यमञ्चतः इन्द्राणी सुपत्नींसै नैद्य योजनानिन्द्रया विश्वव्यधारे इन्द्राणी प्रातः जनाना जगदर्वदायम् हे हिमाकिः सर्वदा इन्द्रयनेन हविरापतिः ब्रह्मनावस्ति अक्षमगेन हिन्दवे नमः समावजत्राः अरगणस्तरश्रीः कायदर्भादिनेवदि शिक्षणवत्सवीराणां सः हरसत्तेनोने दिवसः आपस्तरे प्रेदामानः त्रक्षणात् पिक्कारेष्टाः शास्त्रके प्राण्यानां तन्डे एव नमः समावजियन्नाः भयामिस्तु स्रवयेसुरतिः अम्य कृदत् नवन्यर्जिण्याः अस्त्राय यज्ञो घेणकशो नारवान् दवित्रस्य इन्द्रनैः नाइयेतवेः असिनागोत्सकेवनाः अर्बान् चन्द्रमदः सदामेह तिरोवरिसं यत्प्रिज्ञा तमन्नाय किं पिगरेऽस्तु अच्छदमः हरिवामेविनन्ता अलमक्षो जायते मात्रभूषति सन्तः करिलः सर्वस्वदा देवस्तारदयं नकिनाहुता भोमस्य येष्ठिनः हज्ञतानाम्नामुत्तमो विश्वलाभे हिलमानाय भगिलागच्छः हज्ञश्च विश्वमठोत्तमम् महा हेक्षा बाले ग्रावणकमुखिरः विश्वे देवे यज्ञेश्वरौ हेक्षामस्त्रे हिलमानाय सत्सम् वन्तरिवासाय शङ्करी वेन्द्रेताम् हेत्रायश्चन् स्वराधो अर्थकेतवः प्रक्षिम् सुलिमादिकारः मेखले महित्वारस्वतत्त्वलीजाज्ञ नाम होतारम् पित्तरसमत्सरश्च यज्ञश्च यज्ञस्य केतलम् सन्तम् सच्छस्य देवश्च बन्धान् श्रियात्मज्ञनानाम् हस्तैर्जपुशत्व इन्द्रः इन्दस्तु वैदानि विकाश्यफलेः भेदवन्धाम् हरिन्दज्यो हसिनावृष्णेवा साधहित्रेण सुन वागच्छदन्नः हरिःकन्धे स्वश्विनाक्षयन्नाङ्गमेव संरक्षैः प्रदक्षो विस्तरेणाः संवृषादित्यैषन् महित्वा शुम्न्य शुम्न्यभवो निरक्षाः हजारै यत्सवदन आगम तवर्गा वत्साम गहस्य भोपां श्रेष्ठ गुणसुखिमं दशवदन हे कंसामनुमदयम सोदा सोदा निस्तवरजय चोकरा बने तको लक्षिनगय वगाम हस्तप्रधाना सदारे वच्छौ विज्ञाति विप्रया सोभोय यत्क्षलाज्य निपदः यत्को ज्ञाले सतेनवीकते पुवज्जानगे विष्ट वेदनासरे स्व जानमस्तु महता धरस्य हैले एतद्ब्रह्माहे यः हरिहृष्टादेव हरिवर्तभ्यङ्ग्यः आचर्यम् राजागस्तीनाम् पुरुभोजयन्तः सुरक्षवत्कन्मग्ने चित्वा ज य हेष्वयामीर्वाय हयम् आत्मायुवनायमायाः प्रयमलोकायुस्य रत्नः हे नमानप्रयाभि यज्ञम् शुभ्रम् भवन्तः साकरी चिवोधया हिरालय हयक्षनम् हस्तनोक्त सातर्यामायद्धम् पुरा यज्ञमस्ति नयः सातले लब्ध्वश्च अस्पस्य देदायः होर्वक्तो इदमानोमीया इदमो विलासम् परितञ्चयते विलासम् च परितम् चेशोनाशयापृशले अभिक्षयश्चे श्रीतोनाभियापृषुले अस्थिलस्य किलासश्चे त्रिकयागतस्य ब्रह्मणा लक्ष्मश्चेतमीरम् स्वरूप नाम जय माता खलु नामरेता स्वरूपनिरङ्कृषे शिरगुभुवे हिन्द्रम् सत्यन्धरेन्द्रौ श्रीमन्तमुग्भूतये समचाणि सन्धिदन्धनानाम् सुम् पद्मताम् दातुमलादिहते यम् किमिञ्चमरस्परेण हेनादिशात्साहितङ्गहे श्रीसहरिस्रामत्सवामहे हमत्सङ्गे भाजयन्ताहवामहे भाजे चालकाम् हेवा भागे यथापूर्वे सञ्जाना उपासना समानमन्तस्त्वमाने समानम् मनःसरचित्तमेधावान् अमानम् चेत् अभिजयम् न बद्धम् तम् ज्ञानेन वा हविता यामः अमानेवाकोटिः समानासदया इवः अमानवत्सहमनः यथा वत्सभाश्रये ज्ञानम् लक्ष्मः तम् ज्ञानवनेः तम् ज्ञानवश्विना इवम् शिवात्मादयेच्छदम् तम् ज्ञानम् मया सरस्पतिः तम् ज्ञानकुम्बविताम् ज्ञानमश्विना इवम् श्रमस्येच्छदम् कुपच्छायाम् अजन्मसन्मज वयम् अग्ने हिरण्यसन्दृशः अलभ्यविश्वविदः पायभिष्टम् शिवेऽपि रपरिपाहिनादयम् हिरण्यविश्वस्तु विता कलमाचन्मानुः खण्डभायवरोधस्यायाम् पदे हरेन्द्रभाजयापस्य हस्ते हृदी हैवादयम् दैवासत्यजनाभयम् आदित्यास्तूयम् ऋदःकर्तेण मुञ्चना हृदःकर्तेणादित्याः हि तत्रामुञ्चते हवाः यज्ञे रव यज्ञमानवः आशिक्षम् द्वशे किमा हेन यजमानाः उदराज्येन ह कामावो निश्चयदेवाः शिक्षम् द्वौपशय किमान् हे वायुज्यकम् भोजम् मातस्माद्धव्यम् च ध्रुपदादिमम् च ध्रुपदादिवयभोचानः हृण्णस्नात्मे मलानि वा भूतम् पवित्रे नैवाद्यम् शिष्टयन् त्वमेन सह तद्वयम् तमसत्परेश्यन् दोज्योनिरुत्सनम् हेवन्देवम् अगण्ज्योतिरुत्सनम्पले हविष्मानः इन्द्रश्च भागदेशः न्द्रियम् सर्वे शैलङ्गः शस्त्यङ्गभ्रामनः सुलिन्दौ समग्रन्यक्षदत्नामाः पुनर्किरासन्ति इन्द्रायिरवालितजाः अपप्रेरयन् ककरस्य बुद्धात् योक्षय चक्रियाशे मद्याम्बुद्धेन्दः विधान्योजः प्रगुहपर्वतानाम् आनुषु केतुलाः श्रीम् विश्वासिपोषकम् मा श्रीकन्धे देवसे एवं सामं महं हविं देहि तं किय वदनं देहि रक्तं तथा देहि वदे सधैव हि सनेह मस्य सते पुमन सो दमनित वर्ण नागविष्टो प्रजावञ्च चित्रावजं कन्यामहा त्रिवत्तम नागायवान उच्छलम् कायं सुचित्रावर्णागलागले सत्यं जक्त्यां वदितु चीणजे अब्धावद कमलगतम आलयं ज्ञानवर्शे नम्रं आलंपसम अयुक्तसविजलः सनेहकरत्वात् नमो वेदनानां रेखाप्रधात् कार्यदेशतम् रमेभवो यदेनाम गवां क्षणात् चपनां सत्यय्य पुर्खेनात् तप्पायाश्च हये जो नामवत्तान तिलां संगणनं करदे चित्तोऽयं मेघलदस्तामिरे चितं प्रकारेण सरेत्तम विज्ञानं नमामि सत्यतेरय क्रियाने अवोदयेंद्रवनावस्तुयात्रा इन्द्रः समस्तु नायौमिदम् विष्वम् अभिदेशितामहश्च सुराष्टं इन्द्रवन्तौ भगिशेषाम् आधाय अग्निन्धे सुरन्तिः अग्नेन्द्रश्च मेदिनाः अथवाद्रान्तः याभ्रांसुवस्तुवनस्य मध्ये प्रदर्शयेतस्वधा तदस्पदेशत्वा स्याम् कृष्णाः फले परमेण कृत्पादास्तु श्रेष्ठः हद्यत्रान् श्रयत्नाः ृत्यम् शिवः ब्रह्मग्रन्धवाः पुरो वृगेशाभवन्तुनः अध्यानोदेव सवितः अलायगन्धव विश्वानदेव सवितः शब्दमहा श्रुतिवर्त्यैपरिम् अर्धरे नमस्तदायम् तदेव सुदक्षादक्षपितामहता हरिक्षेश्व तत्सा इदािन्दते पदानी तस्यै स्वयमेवा नभन्ति यस्मिन् ब्रह्माना चिकोद्भयति सगोरिन्द्रुल्यम् सत्यम् खना काफा नाभरा यच्छरो ैवयन् हरे सत्सुनिन्दया प्रजापतिप्रिया यतः वृक्षयोरुधामस्य दक्षिमानन्दम् सत्याः शेवालैवाः बोधप्रमोदानन्दः वृक्षयोर्मः सत्यैव कामस्य सस्याणि दक्षिणानाम् परिग्रहे मानश्चित्तमापूर्तिम् पाचसत्यम शेमे पशोनागुमस्या चतश्रेमे श्रिय स्त्रेक्ष सफेदे हमसे हत्य चंद्रमा आज आ हिशो यज्ञदक्षिणाम् हरोमेकालसम्यताम् हरिष्वशमजम् अन्यमस्मान् हैश्वाललात्मताग्नेः अजयमन्थन्नमतमोराः हैश्वालम् च नित्यागदेवाः हेकाग्ने गोर्मे अर्मा सहासन्ने हयोगास्तद्गुरा करोणे हैश्वालक्षयादयमुट्टाः पुषिलीम्यामधिरस्वज्जना सह मातरम् महीम् अन्तरिक्षमोद्वेदयिवम् अन्तरिक्षमिवशस्करः हैना विराजे केवलाया शिजेदारिप्ताज दे गोपगिप्तः ः प्रसो मनन्ते हे दुर्गा जास्पे देवानान्यमन्त्रा सरस्फलोर्जन्धे मालिपरिदाे हे के दिवदेशा सत्यागुम् समुद्राधिक्षरन्ति प्रसिम् मनसान् इन्द्रस्तो जनागुण्डे हयम् शत्रो वन्दे दर्शनानः अयम् वायञ्जयवाचधातो हर्यत्रयोमप्रेताय मानमुः आनन्द्यते पुषारोद्वक्षते गृहम् नाम अथोन्द्रिवेभ्यः विनयः आयुस्पन्दम् वर्गस्पन्दम् अथवा हस्ता पृथिव्या अध्यक्षम् हिमलङ्कनाम् शक्तिशङ्कः कल्याणीलः प्रजानेन ऋषभेनैव दर्शिणाः प्रददा वा इन्द्रैना रजनास्त्रियामजे इच्छानवदवारे चिन्दायवरं येकनये जयादत्तमायं तं असवाञ्जयवदन यतः वना महाश्रेये अक्नुज्जिङ्गदामद्रे चिन्दृष्टं फलवाणेयस्य नीताविस्पा विरिष्टाज्ञाने हि विषयेस्या वागैयो नोस्कि पुननोरोमन्त्रे यनानो एतन्तः प्रदृत्तम् देव्याये जय जय अविनाशा इन्द्रैः श्रीक्मिदैः तथा गणोः बहरणा वदनाः कृन्धा इन्द्रोदिगार युथिं अंधर्यक्रमोना मारे प्रथहा पुजयतमहा इन्द्रोदिगार यतः कार्यगुन्दे इन्द्रोदिगार वदनाः विश्वं इन्द्रो जातो विश्वोलोजा कपटपहा एतस्नोत हे लमनातेदा विश्वलिङ्गित्को महा यज्ञः जन्मलिज्ञम् शिव शिराजे आजाविदे मद्भवाग्रन्थे आजा इन्द्राध्यक्षत्रियानाम् अयम् विशाम् विश्वजाः अस्माकं सांशिः अमस्तरङ्गणेकत्वमस्यावारिभाषा धेनुः हयमुदायन्दस्य भूयात् श्रीनाम् उत्सरामन् समिन्दम् नवाना षभ्यसोराजन्मस्तपयत्नाः एकविषान्द्रिवान्ध्ये अभिजस्तशत्रो विदस्थहस्तायोः जयन्ति नवत्रुभयन्ति satya anantam bhavitam yo dehyo anamaya svastam tu aryo kema visvagara samudhyagato nirbhavan chakkagayo asavye tatya akhe aket cinnaya arya te sarvada mahosha iremyo shobhava tigasama manadhina ramatte sarve jya samprayi ्रह्मयज्ञः विष्णुनः शृङ्गाणि शृङ्गेनागुपन्देभ्याम् जगमादवस्त यम्नागुणोधे षत् तत्र अग्नेकसंज्ञाः सपाः अग्नेता अज्ञाम् माधीनाम् सौर्णे सह समो ङ्गः समन्नवम् हरेन्द्राज्य सत्यशे आगम् सुलेतवान् श्रीग्नस्त्वम् नवजातमध्य इन्द्राः देवी आवायौ सत्यं शले अज्ञेन्द्रवनवत्सलः अस्य हव्यस्य निश्चिणौ आधिगच्छताम् सुमन्तरम् सुवर्जरम् अस्य हव्यस्य निश्च अज्ञेन्द्रवणवत्लः शिश्वानाम् सेवायस्तेन हरिषोश्चनश्चनः पुनर्हितो हेदम् अयम् यज्ञा इदमानस्य भागः अयम् नभो भवानस्य ग्रन्थः शिश्रे देवा इदमध्यायमित्थाः हिरेण ज्यानाम् हि समीची सन्माने यज्ञम् पुरुपेशसन्ध्य आत्मीमनेकाम्भुवनाय विश्वारः प्रजाम् पुट्यमदम् नवेन हिमेशे नोहमदयप्रत्युत्तरागेण पुः यजसमाजे नवेन म् अधुना भूये चैत्रेदानः अर्गन्धयमानामिदम् इच्छै भूतम् भव्यम् चियम् इदायिने या उपायन्ते तेषां च लाः वत्सन्ते महादेवेन भवे चक्षुर्देवानाम् चौष्यक्षम् हस्य विज्ञानाय बुधाते हस्य सुन्द्रीनहे मानमहालक्षणम् आजन्म प्रतिहेर्यताम् अनन्ता चक्षुराभयम् देवाद्योजनशीनहे सुख ज्योतिरुतामृतम् स्रोत्रेण भद्रवृशम् वन्ति सत्यम् स्रोत्रेण न्तः शयम् राष्ट्रवादिकोष्ठना स्वहोलो जनजाम् सा वित्तम् निहराष्टमाहाष्टज्ञाः तथयम् अस्मभ्यम् जावा च देशक्फले दुहाहरेवलोकः समाजत्राणप्रलोभो लक्षः किणम् चायहतामिदास्त्रेण प्रमुदासम्बभो सायसंहिनः ग्रामोत्तनादः इन्द्रेणीरामेषामयत्त्वागम्बनः हरि ओम्भते तेन सुवक्तन्ते नकः स्व अन्तरे हे देवात्सुन्दलिङ्गः ित्त्वारिबन्तोमागृहस्मो विनाम् गणकार्यानः सत्येनो अस्य हरिषो कानि वा निरन्दनानि जगत्तसौरमञ्जराः इन्द्रामविन्ददत्तानि अनेन हविधाः चाशत्वमस्यामधे कामस्तफलमध्ये मे अस्तु रिक्ताम् च लग्नेन संज्ञाय यत्र भागेन शास्त्रभाषा अक्षराधनेऽपि आशान् भाषापालेभ्यः सेभ्यः चिरम् अध्यक्षेभ्यः य समनप्रैः सत्कारोपायस्पते भूषापूतो ददातुः सज्जिमन्तम्प्रे पूर्वैव प्रशे कामास्त्रे समादृणावतुपूनाम् इमम् कामम् विशिका इन्द्रिक् चकार प्रथमानिमन् भवक्षणापि ैव पर्यन्तदक्षाल्यत्यन्तमानाः हञ्जस्तृपत्पदस्य आसायकम् मखवानत्थवज्रम् अहन्नयनम् प्रथमजामहीनाम् चिरेन्द्राहन् प्रथमजामहीनाम् मायाः जनयन्त्या प्रसादम् सात्रोन्न हन् सत्रम् तत्कदहंशम् श्रीन्द्रवज्रय महतावशेन सन्धागी श्रीवकुलजयनामरत्नः हरिश्रैल उपभक्तुशय्या हध्यैव ब्रह्मधारियत्वे महागेरम् च निवासेतम् धानाः सकत्रुः तिष्वधिकाया रचिः कृते हस्ते दक्षिणे करणीश्वरयन् प्रपञ्चम् निष्पाभवनाय कोषपकाराः कामन्नाभे अभिरमृजयः बहुराङ्गोमसेवितम् कृषेक्षतमृजयुभोषण् अश्विना यज्ञमागतम् काशस्फुरुदुंसतः कोशालक्षतुमारयम् इमै यज्ञमश्विना वर्धयन्तः हिमो हरिजमाणाय धस्तम् हिमो भजोरञक्षणाम् इष्टजो नः कोषाणः पादसर्वप्रेक्षन् प्रदे महे सरस्वते सुभदेवाचि नैव सत्यवाचे भरे भलिम् हिबन्ते भव्यम् हृदमत्सरस्वजे सत्यवाचे प्रभयेन हिमानुरेतासौभगाने शेषद्वयम् यज्ञो राजो यज्ञैः शेवतूनाम् यज्ञस्तस्यानामुदक्षितीनाम् यज्ञः पूर्वजित्यम् दधातु यज्ञावम् मन्वागम् अक्षेतुदेवान् अयम् यज्ञावद्धान्वभिरस्पृहेः इयम् वेजस्वपत्या सुरीराः इदम् वैहिरजपरिहेयशन्या इदम् यज्ञम् विश्वे अवन्तु देवाः भग हेम देवाः येन वयम् भगवन्तः स्याम चन्दाभग सर्वैज्याहरे मे फलाभगफलेताफेधाथः फले मान्धिमदवदन्नः फलप्रणादेव श्रेः फलप्रणशवन्दस्यामः सरश्वते समा उपयन्त्य लोकाः सरश्वते समा उपयम् चित्तम् गोत्रम् शश्वते नागुं समानागुम् शाश्वतेन अविजयस्वान्तम् लोकम् अयुजे पञ्च देवीयन्तो नो अद्य कृत्तिङ्गेन मरुतो जनन्ते ङ्गमयान्तः देवः आवेदन्येन हिरण्यवनफ़्वान् सहि सहक्तत्वादेशरिक्वाः पूर्वपतिश्लाभ्यन्तरिष्ठः पूर्वमेवयम् हरिश्रेव कदाचलः स्वोतालक्तहितत्वजे ओषन्नाव अन्तत्वमुद्रे चिरण्रन्तरिक्षेतमन्दे उत का कृतवस्मेव दृश्यले कृतवरण्यायस्थायम् शकटे एव मङ्गे सहात्वङ्गै समुपावधे अरण्यान्यागं सायम् अकृक्षल अवाहरण्यानिलभन्ते अन्यश्चाधिगच्छते भक्वन्नामेवम् सुद्ब्रह्माणम् नीलवन्तम् विहन्तम् सुरन्दभेदम् असुबुध्वनिन्द्रिमुहम् हस्तभ्यम् चित्रम् षडङ्गाः क्षयक्रियित्वा निर्दयित्वा दुर्वाञ्चाभिवरणक्षपाय अनागतम् ब्रह्मणे शिव सन्दे समन्तरिक्षकं सह वाचय सन्दे प्रतिश भवन्त प्रतिशः वादपत्रे रघुव्यामि ञ्जयः हेमंश्या चाय लक्षपाय बृहत्पदे योविन्दश्च वत्सः युज्यस्ते शाते उदर्वाक्षिवस्यामः विश्वारुक्षमाणाः केन हतायन्ने शक्ते हिमवत्सते हा, फलानि हरम् हित्वा शरीरम् जलतः प्रस्तानाय चक्षुष्कारायश्चेमेन आदित्या विश्वेयाम् देवानायुणः मरुषायाः हरिभो मार्गवन्रिसः अग्निना दत्तमार्गाय स्वयित्वाय प्रदनाय हरिकृष्णाय हायति विस्मारि सर्वाय प्रतिलते सर्वम् आयिर्भूयाय सर्वमायुर्भेदम्वः हधर्मे नाम्नाथः श्रद्धर्मे नान्नमजे ब्रह्मकर्क्रुक्वाहापयप्रणेता प्रयपजेता यमः पुरसृत्वाहान्नादान्नभजे अन्नायज्ञे यजमानाय ददाहा स्वमोराजापतिः राज्यभक्षणविद्याजमानाय तदा कृत्वा वरुणसङ्ग्राय सङ्ग्रायपतिः आनन्दराज्यवक्षणविजमानाय तदा मृत्त्वाहात्रपतिः छर्पक्षणविज्ञा यजमानाय तदा मत्त्वाहावलम्बनपतिः वरवक्षणविजमानाय तदा मृत्त्वाहाः ्रह्मात्रयस्वाहालमानाय ददाह्यामरोणाम् लोकोकपतिः तोसेन आके के के देवानाय बहुमपदः स्थाः कृणि माहेदयके रुष्टः शिरसि पर्वान गणवाङमेना वबहः त्रयस्तज्ज्यवर्जः स्थाः ऐन्द्रचित्राणि अविरं विहाराने आदेवत्त्वावधरे रुष्टः औतरत्नसनाकाः वृष्टाहरे आविस्तदा हिदमेत मदभावे विदा इन्द्रायसुनाधीरायतना हरिः तवाम पत्यमेति नह तव ज्ञानेदनं चस्मे हर्यस्सारवरदाधोषाः इन्द्रोत्पले सुभनावावन्धानाः सदागिरि एवदन्मिदत्त्वा कृष्सुवर्णाम जयभृङ्गं तिगमे भारिणो आसम्मानाः अवभान्तां वन्ने बोधिक्षः उपदेशान् जयवत्तानं भृङ्गराजायत मन्त्रालोकधांतमम् ङ्ग्राः परिमापतन्तेः सोमन्त्यक्षस्तवाविजयम् दहन्तम् समस्याभेदमुदस्य घोषाणाम् सदे एव यमपादस् पतत्प्रणां नागैर्वन्तो वैपलमलं सदागेनं दजयकरत्वा हिरण्यवक्षं मर्णस्तगोदंगं ममशैवालोदकम् परअञ्ञं सन्वादैरवेद्रत्ये आत्मवन्दनहेतेयैैवोऽविस्तरवन्तनः शीलानां वालयानां केंकेश्वरगिनां अवोयानां हेलगान् आत्मैव परमान्त्रेदे तस्याः तस्याः तैः तस्याः च भोगस्तथा च भोगात्मा अहं मनसि अयम् जययोनन्दज्ञानयम् दात्रेय मे तिया करो सये चालो आत्मआत्मनिक् खत्वालो मे मनस् तेन तिया वरोहि यज्ञो गोर्वा इचला हि पानिरो निस्तु दात्रेय भगवान् दात्रेय रक्षये उपभावा वधात्रेय रप्पनस्तम तेरेज्यं जिनार प्रजानन्दे हाय बजनायु दैवतस्वाधे भजस्व मे देवालोरे अमिन्द्रम् चे नपुंसुण्डे प्रपुंशक्ष्वर्तय काये कर्म कर्तरे महाभुवम् चैनम् सत्यदेवम् देवन्द्रम् सत्यैन्द्रः य दातुम् एव देवभूतौ भोरे वृत्ता यत्सः मुखे तन्विलस्मिन् सुमयम् पेटये भवन्त एवावाहे प्रसन्नानन्द रूपा श्रीमल्लव यत् कोऽयेते आरक्तो यं वदहेते येन जगत्तो गुणो वैकालिन्दं गते अभ्येवाद परमशान्तस्तत् रम्यं भावक्षन्तु जय भात् तथा तन्था कृत्वा दिवोः अहः अपान् भूवाः वदते ह यज्जन परसर्व मनोसुखं तथास्त्वा सोवेन गुणसाधिसन्त किन्द्रदाम् प्रत्महाः तदस्वरूपम् विमानय प्रतिपृहाः अस्वागन्तः ेन्द्राः सा मुजयन प्रजाभिजुम् सौमेन सौमाध्यानम् गच्छस्व हरपर्गे वक्षस्वर्थान्ये वक्षस्व स्वयक्षाः कोलपवित्रेण स्वमानेः इंद्रियं, ब्दम् पवदे चतुर्ध्याम् कालिकम् गृह्णानि सरस्वत्या नियाशः <ME> य स्वाहा आनन्दाय स्वाय स्वाहाः मेथेः समवृषभामीधेः योचिका उभौ वृषम् च रक्षये शैलम्बत्तिनोभान् शैमम् पार्थं वदृत्सम्बाञ्च स्वमो कृषयम् क्षत्रम्न्द्रियम् हय रामोहाजेन्द्रियम् यजमानाः शुक्राः म् मधुमन्मयिन्द्रम्पक्षयामिन्द्रिभे आन्ध्रमलराजेन विलपक्षयामि न्तः हिन्धत्वम् परन्तु पवित्रेण साः हन्तु माः प्रनन्दप्रविलामः पवित्रेण प्रलिखा भगवानस्तु पवित्र त्याम् मातरम् च आत्मप्रशासने वासने रणोऽपि रजन्य अलोकम् मरणेभ्यः भवन्तः हरस्वजे मनसाम् अयि तासुत्रमनि जयतां विने श्रीरामोत्तारा जयं खेदा तविनो महीम पाशमानाः ओवाक् ब्रह्मा दनुन्तो वन्ददानाय इन्द्रसुप्रा महाहुदयनवत्यं भगवताचेन सुविधादि जाना चिरस्वानानम वर्णवेचनै सत्याय जययेन अविनाविष्ठं आर्ताय पालयो विन्दमाना सुराभासतादि सुहाणेनो भवन्तः व्यक्त श्रद्धालुप्तः कृत्वा जब पन्न भागें भिड़कस्यमा लहा, सच्चन जेपो हर्था दर्स्की, हर्चु ज्यान प्रक्तम अभ्याम, कागे रचे जो होगितां जिगेना, पक्ष्वान गोधू मैं पुरे उजामे, पेजोन रुप्नम जुपंपताजे, अगर्न मैं जुपंपताजे, अगर्न मैं इन्द्रियाणि े पुनम् विभक्ते हरेन्द्रियामये हा हयदायभ महात्मागुमतावरण सत्यायुत्म हे वक्षत्रालुवे अस्याः बाहुद्याः ओष्ठताभ्याम् अशुणाैगजेन हे हैर् ब्रह्म प्रजा याभिरिञ्चामि हे वक्षत्राभय अस्याः बाहुद्याः ओष्ठभ्याम् सरस्वध्ये वैदजेन हे जायान्नाद्यायाभिञ्चामि है वक्षत्रा अश्वाहुभ्याम् ओ सहाभ्याम् इन्द्रेन्द्रेण श्री हृदयबायाभिन् ओमङ्गला ङ्गुलिरङ्गानि चित्तम् इन्द्रियम् अस्तो मे कर्म न्योः ओरोः जम्पतः मध्याह्माः इः क्षत्रय प्रतिष्ठामि प्रतिष्ठामि घोष प्रत्यङ्गे षट्फुलक्षाम् ज्ञान्युलक्षामि पुत्रे प्रतिरक्षामि यज्ञे त्रया दैवामेकादशात् पुराजनः त्रियः प्रतिबलिताः हेमदेव द्वितीया तृतीयैः तृतीयाः सत्येन सत्तिय ज्यनार थेज्ज्वामि जद्वे जोगं विशाउं हे आमाम यद्वे तुझो याज्या भे याज्या उजख्काई हे जख्काना आहुद भे आहुद जयों में का वान समस्तें दो बोष्पा दोवाल इक्वेत अम्मा मा तुम्मा दिरागवे आगंतं मुपणवे म् हेवालस्य कृणाभयम् अव्यम् माधस्वादेन सह विश्वानम् मञ्जत्रगुम्भः हिभागक्तम् हेनागुचयम् माधस्वादेन सह विश्वानाम् मञ्जत्रगुम्भदः स्वप्ने हेनागुचाभयम् शौर्यमाधस्वादेन सह विश्वानाम् मञ्जत्रगुम्भः त्याभिञ्च अवधु अवधयस्य गुलम् पुरो रामम् देवयपाहे सुमेत्रा वयम् विष्मः छिन्नस्नस्य ओनम् परित्रेण स्वयम् दलतये पश्यन्वज्वरुत्थनम् एवं देवत्राधोडयम् हरम् मज्जोजरुत्थनम् ष्महे तम् मार्गं चवत्सः प्रजयाम् त्वमोधमानम् इन्द्रम् देवम् सुवर्गितम् पशुर्म हे त्वा नमत्यम् हे ओवेश्व हे त्वारम् स्वहे रुद्रेरा हे त्वा जिला इन्द्रायन् स वातरोन्द्रमध्यक्षाय हरेन्द्रियजनः श्रीराज होदात् पित्रौ देवलक्षालिङ्ग यम् मधुराभिदय स्वाजश्च औदर्यया होदाय शल्यक्त्वाहा स्वाहा मेध स्वाहानाम् यथा राजगुण् आदित्येः वीर वीरम् प्रसमानामहोच्चाजेतो रविन्द्रम् चेतना भव्ययम् देव एतद् ज्ञानं मनसा पुरुषार्थः होत एवृन्दम समासुधाजाः होत श्रेयः यत् समराधाना राजेन यज्ञो तथा विसासुधाना इत्तो एव एवृन्दम अवर्तमानाः चिन्तन चिदाना कृणवत्कृहेः हक्यं नर्तनं सम्मयदादस्तदे इनालये भावे इष्टो तु उत्तेह तत्काद सनिदाह पुरुषम् अमागतस्य गते गुरोनि पुरायनं प्रणम भोरेनाम ओधयशतमहतेनारे अनसरेरोजस्तो नमादेय पुण्यवञ्जनसंस्कारदेवः सिन्धुसाहकेन विक्रममिराणाः पुरादेयज्ञमोधानाकरणं सोणानां सम्परितो हरिः सयोनां भक्तराजारे सत्यं भोजां भवेन्नन् बोधा ये कृते भगवत्महा आलयितं लेहना कनुजभ्ये ये सत्यविकन्नत्वावागमान्याच्ये इन्द्रयवाचार्याध्यायाः आनें विजयानवनां तथा च भवदशात्मकं तथा विदेव भगवदत्तौ ने जे सतेरस्य राजोत्सव इन्द्रमहत्के नामुणे सजःसिन्धो नाम च एवलीनाम् सजैव समरिधा चिन्नाप्रवाणकारिण कार्यमत्यानिषेधाः सेवम् मरेन्द्रम् एवम् जैव श्रीरमर्जयम् वसुमनेन भुजयिता हेक्षाणाय हे देविभक्त्रायम् पुत्रे जय अभूताम् असु मने मुखे राज हे लो हेन्द्र महर्धला जयु हे भिक्षके हसुने मुजयस्थले राजो हे हरेन्द्र महोक्षा साधर्मेवं वन्ने वन्ना सर्वे नमो भंते महाने पुराणे नमो पजारामो तिहवचा होदेव भगवान् इयाने तजमानारि क्षिजे पजमाने होदेव स्तेय भंते देवदे नमो तारा तेविनो सताम अदागरेवं सावाभागां तं पजमानारि जने तजमानारि क्षिजे क्षानामाहिनः एवम् एवेन्द्रमर्धेन अन्या वेशोदय श्रुले देवमिन्द्रन् गृह्णा सप्तमध्यः सुनय उदय श्रय जय ्रो नो मेश्वरेन्द्रन्द्रियम् हयतो अप्राभृतम् मधो हियन्तास्य गोतरेण होदायक्षप्तमो न सरस्वती अविर्मेषो हत एपलाकाभिक्षैरजन्ताः हरयस्व हरिस्रता हयन्तराज्यस्य हत क्षन्दराजगुम् छन्दनग्नभुम् एजम् हेरस्वस्वपायन्द्रस्य वैर्यम् पदवेर्पलाकाभिक्षैरजन्ताक्ष्मे हयस्वः परिस्त्रता विदम्मद जियन्त्राल्यस्य होदरे शवेणेन्द्रियम् शवे कर्कन्तुभिः वासरम् पयत्वम परिदायन्त्रायस्य होदरे मोग्नम् मदा जिजन्नाथस्य प्रियजामी भृग्भेदस्वतीभैन्द्राय भैरजम् पयस्वस्तुमधन्दाय कर्तरो अवश्वानम् मिलस्वी अश्वभ्यान्नरोनोदये सुभेदमान् तरस्वदे अश्विलेन्द्राय भैरजम् शुक्रणज्योतिरिन्द्रियम् अयस्तमपरिदा हृदम्भो हेन्दायस्य कन्दिवाः भेदम् श्रेमानरृदा अयस्तामप्परिदा हृदम्भो हिन्दराज्यस्य होदाय कब्जये चिनाकले सोषकुण्डलस्व शीतेन सुहरिन्द्रियम् अयस्वामस्व ययम् साजस्तहोदर्योताय कच्य देवेम् न वेडलम् हयप्रधातुवामदः ओपविन्द्रे हिरन्यम् अश्विने दानभाजे आशादरस्पदे आ इन्द्राय रसरेन्द्रियम् हयस्तावरिस्पदाभितं हियन्दायस्य भादर्यल कौशाय कृपक्षालविन्दवक्षिनाः हृदन्द्रे को जलजोन्द्रियम् हृपादयाभेदम् श्रियानम् हयस्तावरिदातम्भ्यन्दाजस्य भादर्यल होदाय क्षन्दम् शमितायुशकृतम् हरद्वय इन्द्राय स्वीयम् होदाय सर्वजे स्वाहाज स्वाहा स्वाहा साहायन्नायन्द्रियम् इन्द्रियम् साहायम् वानभेदम् साहायता यन्त्रायक्षहोदर्गेण दक्षिणा भरद्भरेन्द्रम् दृष्टामाणम् हे गोमाः साधेन्द्रः कष्टैर् नो नायेण वयस्कृताः शुक्रापयष्वन्दमृताः सक्षिला गोमदक्षुणः सा दक्षिणा वरद्भरेन्द्रुत्रामावृतः ौण्यम् अथ इदम् समजम् च भयम्पदे स्वामहेन्द्रियम् अश्विनाधादे स्वजागुण्डेन्द्रियम् इन्द्राय वजल इन्द्रायन्द्रे राजगुण्ड अध्य हृदयम् हृदयानादरस्पदे इन्द्रायन्द्रयाम् नयन्दसुः अस्मिनानुजयस्फलम् तोमगुणि दुःखम् परिष्कृताः फलःपीतनापरवे हैरे अवश्वान्वितस्पदेः अश्वभ्यान्नदुरोधितः त्या कालिनक्षगम् धनस्पदे हेलाय भेजा पातलेन्द्रकम् तदापदे हस्ति ना परिस्कृताः यम्भेदवलम् समुदाः वर्तताः हस्य नोदः हविरायज्ञन्द्रियम् हेन्द्रेन्द्रियम् दसः हरितावर्णाबलः सत्रामाहुष्पदेः जलमानाय सत्य हरितावर्णादृश जलमानाय दासुशय आदत्तनौके सुत्रामा बलीन्द्रियम् अरुणहक्षकविन्द्रियम् हरेण शयम् सुत्रामायताबलम् रसानायज्ञमादजा हस्तिना गोहेन्द्रियम् अस्याम् वरम् हविजयन् सरस्वती परस्पते हविष्पजे इन्द्रकर्मसमापता सा भेदाकर्मणा सा वृथा सरस्पजे सदस्याम् इन्द्रायिन्द्रियाम् एवम् वैरिसरस्वजेन्द्रिया चे यौनचक्षुलक्षिणाः हरिभिषादश इन्द्रियम् वसुवनेयम् तेज हे वेद्वालो अश्विनाः विरजयन् दयतरस्पजे आरन्न देव्यम् भजे द्वारो दश इन्द्रियम् वसुवनेलयम् तेज हेले अश्विनाः विरजयन् त्रयदरस्पदेवाचमाच्याम् दश इन्द्रियम् हसुमने अधेयश्चर्यन्ती ज्योत्रे अश्विनाः सुमेन्द्री सन्नकर्म योगिषः सौष्टैवेन्द्रियम् हसुमनेयन्त्रेज सेवी भूद्याहुजेन्द्रिना भोस्तनयोजे भस्त्रियम् हसुमने अध्वेयश्चलियन्त्रेज हेलादेवानाः लालिन्दवक्षिणाः सरस्वयम् असुवने जैला हैलेः सरस्वत्यष्टिनापारीणाः सुकर्णमध्ययनाभ्याः इन्द्रायदशम् असुमने अध्येयशलयम् जैला शैवन्द्रवनराशंशः सरस्पत्या शैवनस्पदेः अश्वध्याः सरस्पत्यायवस्य देवनभाम अधुरिन्द्रियामि एवं असुमने उधेयस्य लयम् जयजा एवम् बलहरवार्युध्याःत्याः स्वमलिन्द्रेतालीमञ्जनम् राजानम् बलिभिरायनम् सुमने उधेयस्य क्षयतेन्द्रमस्विनाः राजावालकुन्दरत्वम् अज्ञामज्येष्ठत्राणाभिषये छिष्टा देवामनः श्रृष्टा देवाः छिष्टाज्ञनाः पृष्ठेन्द्रियम् को जम्यथायम् अयमु पचन्पक्तेः प्रचङ्गनाधाने किंसङ्गत्या इन्द्राय भरस्पत्ये मेघवेन्द्रायाश्च भजेन्द्राय भवत्यये अद्य देवो महत्पर्य अष्टभ्याङ्कारेण सरसत्या इन्द्राय सरस्वत्ये मेघवेन्द्रायाश्चिभ्याः इन्द्रायुण्डलस्त्वे अक्षदप्रतिम्रहेण स्व नामान् सुराम्नः अदन्य हरे भ्यः केशवे देवे गुरुसमाल्यायक्षरैदेवालयुरस्ता हिलाच्चभ्यो हे संस्राहामनेहा प्रज्ञानं वेदत्त्वा उपोमं हेतवम् न वेदकम् वेदनाः हरिणां वेद रहां जितेन सोदापि वेदार्किप्पात् ताप्किदराः अद्यप्पां रालवसो हरामहे तथा जगम सेवामपि त्रय्याजु एलो अल्पं दत्त्वा भवन्तु क्षणना भवन्जा जिपदे अङ्गदपदे के अज्यप्पात् ता येन अज्यप्पात् अगोहम च पितरत्वां वियासाः हरे हरे भवन्तः हरिब्रवन्तरे अवन्तस्माने विन्दवन्त हरेहमानाः जलम् पुरप्रियम् अज्ञम् ध्वजेन हविहम् प्रजानाम् चन्वतोम् महाद्यतः सुरमिद्धम् वयन्यम् अज्ञमिन्द्रम् वय वसनम् सायच्छन् कन्वयन्द्रियम् लेङ्ग्राम्ब योधारस्य वा योधस्य होदर्यम् नृत्यहन्तम् पितान्द्रम् मयोधरम् हरत्वसङ्कन्द इन्द्रियम् समत्सङ्गाम्बयोध जय त्वार्यस्य होदर्यद होदाय क्षत्रेदम् ओषङ्गम् गमात्यम् श्रीरङ्गम् प्रेषयप्रिय अमृतेन्द्रम् प्रयोधरं ऋषगेन्द्रन्द इन्द्रियम् पञ्चारेन्द्राम्बयोध त्वाद्यस्य हो दर्यद होदाय क्षत्रचत्वजेः ेवेरन्यः ब्रह्मा इन्द्रम् वयोधरम् पञ्चन्द्रियम् पक्ष्यमाहङ्गाम् वयोद हय द्वार्यप्रहोदर्य क्रोता यत्र कुपेतले षुहते गुहे न क्रोधा भारतर्शने तिष्ठेन्द्रम् वयोधरम् प्रस्तुभच्छन्द्र इन्द्रियम् अष्टमाहङ्गाम् वयोद हय होदा यक्षत्रनामुत्तमैः सह होदा राजे जने कैलेन्द्रम्ब योधम् जगतीहेन्द्रियम् हनत्वा हङ्गामयोधरसोदय होदायक्षत्रेतैः श्रीत्वा दैवन्द्रम्ब योधम् शिराजन्द इहेन्द्रियम् हय नङ्गान्नवयोतसल हे त्वाद्यक्षहोदर्यक्षस्तु योगम् पुक्ष्यवर्धनम् होसायविभ्रदम् पुठयक्षयोसवम् जिवदर्चन्द्रेन्द्रयम् कुक्षानुगान्नवयोतसल हे त्वाद्यक्षहोदर्योसायक्षश्च्यवर्णमुखिनम् शरणाम्बिभ्रदम् भजम् न्द्रम् वदलम् हे त्वाशक्चरय छत्पाः कृतयम् खलिम् षष्टमिन्द्रम् वयोतलम् हरिच्छन्दनम् चन्देन्द्रियम् हरभङ्गान्वयोदज हे त्वा चहोदर्य ी छन्द इन्द्रियम् इन्द्रियम् अग्ने जैवामख्यः इन्द्रियम् सुरवयोदशः सुमरेणक्षः सुहजे कण्ड इन्द्रियम् पञ्चादिद्रोर्णयोदशः दलदेवे महेः ब्रह्मादेवाहस्पतेः पञ्चच्छन्देन्द्रियम् उषे यक्वे सुः शिशै त्रिष्टन्देन्द्रियम् अष्टमाद्रोर्णयोदशः हैल्याहो नाराभिः इन्द्रेण हरितन्दय हेन्द्रियम् हरद्वान् दौर्गयोः चित्रैराहेन्द्रियम् इहेन्द्रियम् उक्षादोः सविता रावणप्रदे सवितान्दहेन्द्रियम् तथा मेहग्धः म् वरुणः हरिच्छन्दः छन्दैन्द्रियम् हसन्तः पुनम् हसन्तरेण हरेन्द्रियविलोषः हेत्रेण देवाशुनाः रुद्रात्मशयकृतम् हरदायताम्बलम् फलेन्द्रयविलुः रजताभित्याः लोमे सप्तदशे स्फुतम् हरिलोकेन विशौजसा हरेन्द्रेव योधः सारेण तु नेवाः जय विपुंसृतम् श्रीराजेण श्रिया श्रियम् हरेन्द्रेव योधः हरेमन्त्रेण तुना देवाः मरुतृमलेरम् हरेण चत्वरे स्था हरेन्द्रेव योधः श्रीजयस्तुना देवाः श्रेत्रिपुंसेव सृतम् सत्येन देवतेजेः क्षत्रम् हयन्द्रैवयोधः हेमम् वरिन्द्रम् वयोधरम् हेमम् देवोऽय सायत्रियासन्दव्यायम् शैलयिन्देव योतस च सुमने मधुकैश्वविन्द्रम् वयोधनम् हैले देवेन वर्धयन् रुच्यासन्दयम् धानविन्द्रैव योतस च हसुमने बुधैले देवम् वयोसदम् अनस्तुभाचन्दजयन् दयम् आसुमने बुधैयत्कले कानिविदा शैले योक्तेन्द्रम् वयोतम् श्रे देवमर्थ जयन्द्रयम् स्वविन्द्रैव योधने बुधैयत्कले कानिगा श्रे वे भोचारुली देवविन्द्रम् वय वसवंशु हैवे देवमत्सदानाम् अन्त्याचन्द जयन्द्रयम् शुक्रेन्द्रमलय मधुदै कानिजया शैला देवविन्द्रम् वय वसवंशु शैलादेव जैन कृषणेन्द सुमनय मधुदयक्षवेता जैवेपित्रैलेरपयोधम् फलेन्द्रमवर्धयन् शिगच्छासन्द जयन्द्रियम् फलविन्द्रैव राजवंश देवो देवमवर्धय नन्द जयन्द्रयम् कैलीन्देव योतय सुले विवया हैवानत्रैव इन्द्रम् वयोधवम् हेवो देवम वर्धयते हिमदासन्दयन्द्रियम् हैन्देव योतदय हसुमय बुधेयत्कले वेदम् प्रहेदवायुजयम् व योधनम् हेवम् देवम वर्धयत स्वकुपातन्ददयन्द्रियम् हैन्देव योदय हसुमय बुधेयत्कले वेल हेवागेवमिन्द्रम् व योतम् एव देवम वर्धयते अविच्छन्तता ओ भवते ब्रह्मवक्षरम् वै सवजयक्षरमेवावरुन्ध राज्ञामस्वा भवते सम्भवक्षरम् वामः सम्भवक्षरमेवावरुन्धे गुण्डा भवते संहवक्षरं वै हरित्रेतदेवानाम् पुनसाम् गच्छलकामस्या न्येषुनाभिपुंशेषु एकादशदक्षिणामीयन्ते एकादशमाध्यन्तेषु नानाभिपुञ्जेषु एकादशत्रीय वने सन्न्येषु नानाभिपुंशेषु त्रे त्रिंशत्सम्पद्यन्ते त्रयस्त्रिंशद्वैदेवदाः देवना एवापन्ते सप्तत्यौ भ कृष्णाजिनेभिरुञ्जले ब्रह्मणो ब्रह्मलक्षणे देवेन आद्य नाभिरि अग्निपकाश्यर्थे अजयत्सौष्णः पुष्णे दोषा पुष्णे विश्वस्य पुष्मेव प्रसवायदायित्वः हतयत्वाष्ट्रः तत्तानि करोणः हतोवारुणः हरयद्वयेष्वेवः वैश्वः अभयम् मारुणः जलाजाजे ज्ञै भवते हा जैगो वेद्राणाम् मनः अभयत्सौम्यः कौम्योः प्रथमा एकसा मित्रः अभयद्वा जलत्पत्यः हैलद्वयम् धनस्यैलो वेद्राणाम् ध्वनः कौयला रङ्गच्च अथ वेल्यावत्तने अथयत्तादः हेलभ्यप्रत्यक्षम् नाम् हनस्य वाक्पटीयम् एव मारुणः अस एव कक्षदाय कैवारुणः अजयज्ञा वा इन्दावत्सायज्यमुदयच्छान्व मन्येताम् समेतेनैवन्वमन्येताम् सायत्रे कृष्णाजलेचे ब्रह्ममायमयो लोकम् श्रीकृष्णाजिलम् ब्रह्मयुञ्जते तथा देव्यावत्सला भवे हरि हसो श्रीहरेव हे तत् स्वामः हेम हेवाञ्चरामम् सत्कर्मम् भजे हतावचना समक्रिम् भजनस्य गोपाम् एवम् शुष्करम् हेम् चन्द्रामनुभेव स्वामः सोजते तदेव नमः तदेव नमः हेष्ट्या समनश्च तमः एवम् वेद प्रायच्छन् ततोना श्रूयते चेष्ट प्रजावादम् वदन्ते साकम् सर्वा साकम् श्रूयते सूर्य एवम् वेन सारालज्ञाभिरुञ्चरेण राजवंशः चिह्च्यदा एतत् शत्यम् च राजसोयमीनम् भवते येन सत्यमुदुक्षणेन भवते सौरेव जनेयः भिरञ्जने सद्यत्वारम् अनुत्तदेव त्वेन गोधनः क्षत्रिपुंसर्वः क्षत्राया क्षत्रभुत्तमोहनाः समान्यत्रेतत्त्वया ौ कृनौ धराया इन्द्रय्या देवे सुभगा जानङ्गाजन्य सुभाय सप्तस्य क्रन्धे गुरुलक्षमायौ इन्द्रय्या देवे सुखगा जना रामनागमस्य दालुङ्गेण इस्वस्य म्बुडे रुगोडो figure नियारे वे रुभगारि दाना ताना आगमर्च रध़ उनना कार्धयाक्षे कुर्भवत राये साथय बद्द्धंस्य पहर्म जिरुत्मे इंदैयारे वे रुभगारि दाना सामायमर्च राधुयादावि राधि प्म्राऑि प्रा� इन्द्राय औज त्वन्द श्रेनायष्वन्द्रेनाय स्वायुश्व प्रयत्ता सेलमुखान् सैज प्रत्य सैज सङ्ग त्वायस्तरास्तु मे त्वायसाश्वरप्रत्यय त्वयसाध लब्ध्यमा हयो प्रयच्छामि हयत्वरस्तु नैमुखम् हयस्तरास्तु मे हयत्वा विश्वप्रत्यय हयसाध आगिदा वन्दे रजिमाना तिमना नाहिदा वत्सला कृते जयनुद्रोर्ण समराजन्यः भागेवा महात्मन् समगितः विsetSelected वरन तरिषासे आहिरस्य स्फायिते सर्वादिना महायेज चेतवः तमनोदवा तथा क्षण्यतिन्त्वा तथा अनलोकासां विचाः अरिजा इवत्तदा यनायच्छय ग्रन्थानि अमाय्यो मोरथः समहमत्मनामुख्यायनाय देव्याय ग्रन्थानि अवानयः समभक्तानामश्यायनायनाय ग्रन्थानि अवानैवा यज्ञया समभक्तानामुष्यायनाय हामिषायत्वाय ग्रन्थानि हरिचैयत्वा उग्रश्च आदित्रवर्धनः देवाधिसवर्षः आदिष्ठन् तं कलश्च अभूषन् श्रवताश्च मनस्पदस्यानुरश्च नाम आविष्टरो वा अमृता महन्न हनुत्वाविश्व अनुपप्तराजा नवयोभिः अनुत्वामित्राणाभिधावम् हनुमानामजीश्व क्षिणः स्वामिमत्पेः आयम् पुनः प्रजते पुरस्ता प्रजा प्रजावम् प्रजावलक्ष्यन्नम् भवता यच्छद सामान्यत्वा प्रजापतिम् प्रजा उपावन्तः सन्दमेवेन वर्तन्ते प्रजा उपावत्तन्ते शौचेन एवम् वेदा सर्वाण्यन्नानि भवन्ते सर्वे पुरुषाणाः सर्वान्यवान् धान्यवन्ते सर्वान् पुरुषान्वेन गमयते यद्धिरञ्जम् ददाजे चेनाम यच्चधर्मम्न यत्र आयुक्तेन यद्धिरण्यमाजे श्वे हिरण्यम् श्वरेवास्मिन् दधा चे हिरण्यम् चे च एव सर्वमवरुध्या उच्यतादौर्येण कार्यः उच्यन्तम् वा यम् सर्वाः प्रयापरिणन्दन्ते सुदृक्षया दर्शनीया भवति वदन्ते ङ्गाः कवेले अमानैव भूयान् भवे मरुतोनाम्भवने यज्ञः यज्ञमेवामन्धये सप्तदशव्यक्तामानाभिप्रजापले प्रजापले अगत्य मरुध्यवृक्षाप्तवृक्षते सा इन्द्रगत्यश्चेन्द्रश्चेन्द्रामादृता वृक्षाश्च वनीया भवन्ते तया प्रसमे अन्नारभ्यन्ते एवम् द्वितीये एवम् तु एवञ्च वृक्षमे हलभ्यन्ते वृक्षमे वक्षवजे हे अजयम्बायज्ञः हेजय नमाय विवाराज्यम् स्वाराजम् लक्षले हे अजयन एवम् वेद नवी मारु पञ्चसा पञ्चमात् पुरुषाधन्नमध्ये शयम् जय सप्तदश जोमानाधिगन्ते सप्तदश प्रजापतिः प्रजापतिरेव मादो अस्याजनारित्याः अस्त्यः वायवनुपमानाः हियामरुणः शिलादेवालम् अज्ञमोगदायविरोपथ अन्यान्या वक्तम् प्रसावन्यस्याः भवन्तोम् विस्वान्य पुनः श्रेरिसनाक्षे शास्त्रा श्रीवानवशासर्य निज न्नः तथैव प्रभेवा जगद्भिः मध्यामहम् हेमे आदिनन्दभे श्रीत्वार्यमाणम्भीक्षमाणाः श्रीस्वः कृष्णञ्च वर्णञ्च बृह म् हेरम् सौदम् ह्यम् चित्साहे सा लिख्यमाना या हे हायन्न मेत्वाच्छ जिन्द्राकारं मदनमनाया तत्त्वावशाचेतना चेतस्वान् परवर्णदे प्रतापमरिदये जिन्द्रं वयं महादेवे जिन्द्रमध्य एवमहे जिन्द्रमृत्येव जिन्द्रमं दयारोहसंतमहा जिन्द्रं सरक्तलोम वरानिष्कुतम असोराजये यो जिन्द्रं भयाभया मरणस्य या तदनुखेव ओमानोर्कये न्द्रहम् अग्रम् मित्रम् अगु साक्षयिक्षेत्रम् पुनश्चन्द्रम् हस्ते इन्द्राय आम् ै समुत्फले